हरि ओदि अथ देवी भागवत महापुराणे है, द्वितकतीय ऋषय उत्पत्ति तोक्ता व्यास्याजस सत्यवैया तथा विस्तरे तथाप्येक सुसंदेह चिते न निवर्तति धर्मज्ञ कथितेन त्वया न माता व्यासस्य या सत्यवती शुभा सा कथम् नृपतिम् प्राप्ता शंतनुं धर्मवित्तमं, निषादपुत्रीम् स कथम् वृतवान् स्वयं, स्वयम् धर्मिष्ठ प्रौर्पौरवो राजा कुलहीनाम संवृताम् शन्तान प्रथमा पत्नी का ह्यभूत्कथया पुत्रो भीषम पुत्रेधावी भी वसुवश कथम थया प्रोक्त पुरासुत राज चिरांगद कृत सत्यवत्ता सु वीरो नित तेजस चित्रंगते हते वीरे कृत सुस्था विचित्रीना सत्यवतु तो नृप ज्येष्ठे भीष पू धर्मिष्ठे रूपवत्यपि कृतवान् स कथं राज्यं स्थापित तेन जानता बुते विचित्र वीर्ये तु सत्यवत्यति दुःखिता वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथं कथं राज्यं न भिस्माय ददौ सा बलवर्णिनी न कृतस्तु कथं तेन वीरे निर्धार संग्रह अधर्मस्तु कृतकस्माद्भ्यासे नामित तेजसा ज्येष्ठेन भ्रातृभार्यायां पुत्रौ उत्पादितौ इति पुराणकर्ता धर्मात्मा स कृतवान् मुनिः सेवनं परदाराणां भ्रातृश्चैव विशेषतः चुपप्सितम् इदं कर्म कृतवान् मुनिः शिष्टाचारः कथं श्रुतः वेदा नोमितिकारकः व्यासशिष्योऽसि मेधाविन् सन्देहं क्षेत्तुमर्हति श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः श्रुतोवाच इक्ष्वाको वंशप्रभवो महाभीश इति सत्यवान सत्यवान् धर्मशीलश्च चक्रवर्ती नृपोत्तमः अश्वमेधसहस्रेण वाजपेयी शतेन च तोषयामासदेवेन्द्रं स्वर्गं प्राप महामतिः एकदा ब्रह्मसदनम् गतो राजा महाभिज सर्वे जलसमाजग्मु सेवनार्थम् गंगा महानदी तत्र संस्थिता सेवितुं विभुम् तस्यावासश्च मारुते न अधो अधोमुखास्र सर्वे न विलोक्यैव तां राजा महाबीषस्तां तु निःशङ्क सापि तां प्रेमसंयुक्तम् नृपम् ज्ञातवती नदी दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जो काममोहितौ ब्रह्माचु गोप तौ तूर्णं च चाप च वृषान्वित मत्सलोकेषु भूपालजन्म प्राप्य पुनरिवं पुण्येन मम ताविष्टं वाचसि सर्वथा गङ्गां तथोक्ता वां प्रेमवतीं नृपे विमनस्को तु तूर्णं विस्मृतो ब्रह्मणं स नुपाचिन्तयित्वा भूर्लोके धर्म तत्पराम् प्रतिपं चिन्तयामास पितरं पूर्वं जयम् एतस्मिन् समये चाटो वसव श्रीसमन्विता वसिष्ठस्याश्रमं प्राप्ता रममाणायदृच्छया पृथ्वादीनां वसूनां मध्ये कोऽपि वसुत्तमः जौर्नामा तस्य भार्याथ नन्दनीं ददर्शः दृष्टापतिं सा पप्रच्छ कस्य यं दे निरुत्तमा योतामाहवसिष्ठस्य गौरी यं क्षृणसुन्दरी दुर्धमस्यापि भेद्य तु नारी वा पुरुषोऽथवा अयुतायुर्भवे नूनं सदैवागत यौवनः तच्छ्रुत्वा सुन्दरि प्रह मृत्युलोके सिमे सखे उशीनरस्य राजसे पुत्री परमशोभनय तस्याहेतोर्महाभागसां गाम् पयस्विनीम् आनय स्वाश्रमम् श्रेष्ठम् नन्दिनीं कामदां शुभाम् यावदस्या पयप्रीत्वा सखी मदैव हि मानुषेषु भवेदेकाजररोगविवर्जिता तच्छ्रुत्वा वचनम् तस्या जोर्जहारिनीम् अवमन्यमुनिं कृतायाम् अथ नन्दिन्याम् वसिष्ठस्तु महातपः आजगामाश्रमफलम् फलान्यादाय सत्वर न पश्यत्य धेनुम् सर्वत्साम् साश्रमे मुनिः भगवयामास तेजस्वी गह्वरेषु वनेष्वपि नासाधिता यथा धेनु शुकोपातिशयं मुनिः वारुणी चापि विज्ञाय ध्याने न वसुभिरुताम् वशुभिर्मेरुता धेनु यस्मान् माम् अवमन्य वै तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशय एवम् शशाप धर्मास्मा वसु तान् वारुणि मनसः सर्वे त्रयोर्दुःखिताश्च ते इति जानन्तऋषिम् तम् अनु तम् तमृिम् वसवचरणम् गतः मुनिस्थानाः धर्मात्मा वसुन्धीनान् पुरस्थितान् हनुसंवत्सरम् सर्वे शापमोक्षं अवाक्षथ येनैयम् वृता धेनु नन्दिनी मम वत्सरा तस्मात् जौन्मानुषे देहे दीर्घकालम् वसिष्यति ते सप्ताहे पथि गच्छन्तिम् गङ्गाम् दृष्ट्वा सरिद्वराम् उचोस्ताम् प्रणताम् सर्वे सप्ताम् चिन्ता सुरान्नदीम् भविष्यामो वयम् देवी कथं देवा सुधाशनः मानुषाणां च जठरे चिन्तयम् महतिहीनः मानुषे भूत्वा जनयः अस्मान् हरिद्वरे चन्तनूर् नाम राजसि तस्य भार्या भवानगे दातान् दाताञ्जले चान्तश्चास्मान् निक्षिपस्व सुरापये एवं चाप विनिर्मोक्षो भवता भविता नात्रोषय तच इत्युक्ता च ते सर्वे जग्मोल्लोकं सखं पुनः गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः महाविशो नृभोधात् सुता सदा शन्तनो नाम राज धर्मात्मा सत्यसंग्रह प्रतिपस्त सुलीम चक्रे सूर्यश् मितस तदा चली तस्मा निसृता वरवर्णि दक्षिण चाल संकाशम पूर्व भेजेशुभ अंके स्थिति चाहे मृष्वा किं वरन मे ममोरा स्थितसी किम दक्षिणेशु सरारोह यद राजम स्थितास्मङ्के कुरु श्रेष्ठ कामयानाम् भजस्व माम् तमवोच अथो राजा रूपय्यौ वनशालिनीम् नाहम् परस्लियम् कामात् गच्छयम् वरवर्णिनिम् स्थिता दक्षिणभोरुम्बे तम् अश्लिष्य च च स्थानम् विद्धि सुचिन्मिते स्नुषा मे जाते पुत्रेति वाञ्छिते भविष्यति च मे पुत्रे तव पुन्यान्न संशयः तथेत्युक्त्वा गता साभि कामिनी दिव्यदर्शनात् राजा चापि गृहं प्रात चिन्तयन्ताम् पुनः ततःकाले न केता दाते पुत्रे वयस्विने वनं जिगामिषु राजा पुत्रम् वृत्तान्तमोचिवान् वृत्तान्तम् कथयित्वा तु निजं कृतम् यदि प्रयतिता बाल त्वाम् मने चरु कामया नावरारोह ताम् भजेथा मनोरमाम् न प्रत्यव्याप्या काशी मन्ययोगा नराधिपय धर्मपत्नीम् च ताम् कृत्वा भविता त्वम् सुखी किले श्रोत उवाच एवम् सन्दिश्य तम् भूपति प्रीतमानसः चत्वा राजश्रियम् सर्वाम् परम् राजा तत्रापि च तपःसप्ता समाराध्य पराम्बिकाम् जगाम स्वर्गम् देहं स्वदेहम् त्यक्त्वा स्वतेजसा राज्यम् प्राप महा तेज शन्तनु सार्वभौमिकम् प्रजां वै पालयामास धर्मदण्डो महीपतिः इति देवी भागवते मापुराणे तादृशशास्त्राम् संहितायाम् द्वितीयस्कन्धे प्रतीप सकाशात् चन्दनो जन्म वर्णनम् श्री तृतीयोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु